अथ पञ्चाशः सर्गः अथोवाच महातेजा हरिराजो महाबलः किमियम् यथितासेना मूढवातेव नौर्जले सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽ ब्रवीत् न त्वम् पश्यसि रामम् च लक्ष्मणम् शरजालाचितौ वीराबुभौ दशरथात्मजौ शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ अथा ब्रवीद्वा नरेन्द्रः सुग्रीवः पुत्रमङ्गदम् नानिमित्तमिदम् मन्ये भवितव्यम् भयेन तु विषण्णवदना ह्येते त्यक्तप्रहरणादिशः पलायन्तेऽत्र हरयस्त्रासादुत्फुल्लोचनाः अन्योन्यस्य लज्जन्ते न पृष्ठतः विप्रकर्षन्ति चान्योन्यम् पतितम् लङ्घयन्ति च एतस्मिन्नन्तरे वीरो गदा पाणिर्विभीषणः सुग्रीवम् वर्धयामास राघवम् च जयाशिषा विभीषणम् सुग्रीवो दृष्ट्वा वानरभीषणम् वृक्षराजम् महात्मानम् समीपस्थमुवाचः विभीषणोऽयम् सम्प्राप्तोऽयम् दृष्ट्वा वानरर्षभाः द्रवन्त्यायत सन्त्रासा रावणात्मजशङ्कया शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् पर्यवस्थापयाख्या हि विभीषणमुपस्थितम् सुग्रीवेणैव मुक्तस्तु जाम्बवा वृक्षपार्थिवः वानरान् सान्त्वयामास सन्निवर्त्य प्रधावतः ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः वृक्षराजवचः श्रुत्वा तम् च दृष्ट्वा विभीषणम् विभीषणस्तु इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ इमानवस्थाम् गमितौ राक्षसैः कूटयोधिभिः भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना राक्षस्याजिह्मया बुद्ध्या वञ्चिता वृजविक्रमौ शरैरिमावलम्बिद्धौ रुधिरेण समुक्षितौ वसुधाया विमौ सुप्तौ दृश्येते शल्यकाविव ययोर्वीर्यमुपाश्रित्य प्रतिष्ठाकाङ्क्षिता मया ताविमौ देहनाशाय प्रसुप्तौ पुरुषऋषभौ जीवन्नद्यविपन्नोऽस्मि नष्टराज्यमनोरथः प्राप्तप्रतिज्ञश्चरिपुः सकामो रावणः कृतः एवम् विलपमानंतं परिष्वज्य विभीषणम् सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् राज्यम् प्राप्स्यसि धर्मज्ञलङ्कायाम् नेह संशयः रावणः सह पुत्रेण राघवलक्ष्मणौ त्यक्त्वा मोहम् वधिष्येते सगणम् रावणम् रणे तमेवम् सान्त्वयित्वा तु समाश्वास्यतु राक्षसम् सुषेणम् शुशुरम् पार्श्वे सुग्रीवस्तमुवाचः सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ गच्छ त्वम् भ्रातरौ गृह्य किष्किन्धाम् रामलक्ष्मणौ अहम् तु रावणम् हत्वा सपुत्रम् सह बान्धवम् मैथिलीमानयिष्यामि श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् देवासुरम् महायुद्धमनुभूतम् पुरातनम् तदा स्मदा न वा देवाञ्छर संस्पर्शको विदान् निजघ्नुः शस्त्रविदुषच्छादयन्तो मुहुर्मुहुः तानार्तान्नष्टसञ्ज्ञांश्च गतासूंश्च बृहस्पतिः विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति तान्यौषधान्यानयितुम् क्षीरोदं यान्तु सागरम् जवेन वानराः शीघ्रम् सम्पाति पनसादयः हरयस्त विजानन्ति पार्वती ते महौषधी सञ्जीवकरणीम् दिव्यां विशल्याम् देवनिर्मितां। चन्द्रश्च नाम द्रोणश्च सागरोत्तमे अमृतम् यत्र मथितम् तत्र ते तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ अयम् वायुसुतो राजन् हनूमांस्तत्र गच्छतु एतस्मिन्नन्तरे वायुर्मेघाश्चापि स विद्युतः पर्यस्य सागरे तोयम् कम्पयन्निव पर्वतान् महता पक्षवातेन सर्वद्वीपमहाद्रुमाः निपेतुर्भग्रविटपाः सलिले लवणाम्भसि अभवन्पन्नगास्त्रस्त भोगिनस्तत्र वासिनः शीघ्रम् सर्वाणि यादांसि जग्मुलवणार्णवम् ततो मुहूर्ताद्गरुडम् वैनतेयम् महाबलम् वाणराददृशः सर्वे ज्वलन्तमिव पावकम् तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः पुरुषौ बद्धौ शरभूतैर्महाबलैः ततः स्वपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च विमवर्ष मुखे चन्द्रसमप्रभे वैन तेजेन संस्पृष्टास्तयोः संरुहुहुर्व्रणाः सुवर्णे च तनुः स्निग्धे तयोराशुबभूवतुः तेजो वीर्यम् बलम् चौ ज उत्साहश्च महागुणाः प्रदर्शनम् च बुद्धिश्च स्मृतिश्च द्विगुणा तावुत्थाप्य महाते जागरुडो वासवोपमौ बुभौ च स स्व जय हृष्टो को भवान् रूपसम्पन्नो दिव्यस्रगणुलेपनः वसारो विरजे वस्त्रे दिव्याभरणभूषितः तमुवाच महातेजा वैनते यो महाबलः पतत्रिराजः प्रीतात्मा हर्षपर्याकुले क्षणम् अहम् सखाते काकुत्स्थप्रियः प्राणो बहिश्चरः गरुत्मानिः सम्प्राप्तो युवयोः असुरा वा महावीर्या दानवा वा महाबलाः सुराश्चापि स गन्धर्वाः पुरस्कृत्य शतक्रतुम् नेमम् मोक्षयितुम् शक्ताः शरबन्धम् सुदारुणम् मायाबलादिन्द्रजिता निर्मितम् क्रूरकर्मणा एतेनागाः का द्रवेयास्तीक्ष्दम्ष्ट्राविशोऽल्बणाः रक्षो मायाप्रभावेन शरभूतास्त्वदाश्रयाः सभाग्यश्चासि धर्मज्ञ रामसत्यपराक्रमा लक्ष्मणेन सह भ्रात्रा समरे श्रुत्वा तु वृत्तान्तम् त्वरमाणोऽहमागतः सहसैवावयोः स्नेहात्सखित्वमनुपालयन् मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् अप्रमादश्च कर्तव्यो युवाभ्याम् नित्यमेव हि प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः शूराणाम् शुद्धभावानाम् भवतामार्जवम् बलम् तन्न विश्वसनीयम् वो राक्षसानाम् रणाजिरे एते एतेनैवोपमानेन नित्यम् जिह्माहि जिम्हा एवमुक्त्वा तदा रामम् सुपर्णः स महाबलः परिष्वध्य च सुस्निग्धमा प्रष्टुमुपचक्रमे सखे राघव रिपूणामपि वत्सल अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथा सुखम् न च कौतूहलम् कार्यम् सखि प्रति राघव कृतकर्मारणे वीरसखित्वम् प्रतिवेत्स्यसि बालवृद्धावशेषाम् तु लङ्काम् कृत्वा शरोर्मिभिः रावणम् हत्वा सीताम् त्वमुपलप्स्यसे इत्केवमुक्त्वा वचनम् सुपर्णः शीघ्रविक्रमः रामं च नीरुजम् कृत्वा मध्ये तेषाम् वनौकसा प्रदक्षिणम् ततः कृत्वा परिष्वज्य च वीर्यवान् जगामाकाशमाविश्य सुपर्णः पवनो यथा नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः सिंहनादम् तदा ने दुर्लाङ्गूलम् दुधुवुश्च ते ततो भेरीः समाजघृर्मृदङ्गांश्चाप्यवादयन् दध्वः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि पुरम् अपरे विक्रान्ता वानरानगयोधिनः द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः विसृजन्तो महानादाम् स्त्रासयन्तो निशाचरान् प्लवङ्गमाः तेषाम् सुभीमस्तु मुलो निनादो बभूवशाखा मृगयूथपानाम् क्षये माणे वाल्मीकए आदि का्ये युद्धकांडे पंचाश सर्ग